श्रीहरये नमः दशमस्कन्धम् अथ प्रथमोऽध्यायः राजोवाच कथितो वंशविस्तारो भवता सोमसूर्ययोः राज्ञां शोभयवंस्यानां चरितं परमाद्भुतं यदोश्च धर्मशीलस्य नितरां मुनिसत्तम सेन अवतीर्णस्य विष्णो वीर्याणि संसनः अवतीर्यय धूर्वंसे भगवान् भुतभावनगा कृतवान्यानि विश्वात्मातानि नो वदविस्तरा दर्शय भगीयमनात् भवषदा श्रोत्र मनो बिरामात् कवोत्तमश्लोकगुणानो वदत् पुमा विरज्येत विना पशुघ्नात् पितामहा मे समरे मरञ्जैर्देवव्रदत्यातीरतैस्त्री कृत्वा तरन्वत्सपदं स्मर्यत् प्लवाहात् द्रौण्यस्त्रविप्लुष्टमिदं मधङ्गौ सन्तानबीजं कुरु पाण्डवानात् जुगोपकुशिं गत आतचक्रो मातुश्च मे यक्षरणं गताया कावीर्याणि तस्य किल देहभाजा अन्तर्बहिः पूरुषकालरूपैः प्रचतो मृत्यो मोतामृतं च मायामनुष्यस्य वधस्त्व विद्वन् रोहिण्यास्तनय प्रोक्तो रामसङ्कर्षणस्त्वया देवक्यगर्भसम्पन्थकुतो देहान्तरं विना कस्मान् मुगुन्तो भगवान् पिदुर्गेखा व्रजङ्गतः क्व वा संया कृतवान् सात्वतां पतिः व्रजवसन् किमकरोत् मधुपुर्यां च केशवः भ्रातरं शावीत्कं सं माधो अद्धाधर्हणं देहं मानुषमात्रियघति यदुपुर्यां सखवात्सीत्पत्न्यगद्यभवन् प्रभोगो एत धन्यस्य सर्वं मे मोने कृष्णबीचेष्टितं भक्तुमर्हसि विश्रुतं नैषादि दुस्सगा क्षुण्मां त्यक् मभिध भी भी ते भीपन्तं त्वन्मुखाम्बोज श्रुतं हरिकथामृतं सुत उवाच एवं निशं य भृगुनन्दनसाधुवदं वैयासखी स भगवानत विष्णुरातं प्रत्यर्च कृष्णचरितं कलिकल्मषग्नम् व्याहर्तुं मारभत भगवत प्रधानः श्रीशुक उवाच सम्यक् व्यवसिता बुद्धिसवरा कथायां ते यज्जाता नैष्ठिकीरतिः वासुदेवकथा प्रश्नः पुरुषान् स्त्रीन् पुनातीः वक्त्रामृच्छकं श्रोतॄंस्तत्पादसलिलं यता भूमेर्दृप्तनृपव्यज दैत्यानिकसधा युतैः आक्रान्ता भूरिपारेण ब्रह्माणं शरणं ययौ गौर्भोत्वाश्रुमुखी किन्ना ग्रन्थन्ति करुणं विभोः उपस्थितान्ति के तस्मै व्यसनं स्वमवोचत् ब्रह्मा तदुपधार्यात् सग देवस्तया सग जगामस्त्रीनयनस्त्रीं क्षीरपयोनिधे तत्र गत्वा देवदेवं वृषाखपिं पुरुषं पुरुषसूक्तेन उपतस्ते समाहितः गिरं सामाधौ गगने समिरीतां निसंयवेदास्त्रेधा सानुवाच गाम् पौरुषी मे शृणुता मरः पुनर्विधीयतामासुतैव पूरैव पुंसा मधृतोधाराज्वरो भवद्भिरं भजन्यता स या त्याक्ष पयंश्चरेद्भुवि वसुदेव गृहे साक्षात् भगवान् पुरुषः परः जनिष्यते तत्प्रियार्थं सम्भवन् सुरस्त्रियः वसुदेवकलानन्तः सहस्रवधनस्वराट् अग्रो देवो हरे प्रिय विष्णोर्माया भगवती ययसंमोहितं जगत् आदिष्टा प्रभुणां सेन कार्यार्ते सम्भविष्यति श्रीशुक उवाच इत्यादिश्य अमरघणान् प्रजपति पतिर्विभुः आस्वास्य च महिं गीर्भिस्वदामपरं ययौ सूरसेनो यदुपधिर्मधुरामा वसन्पुरे मातुरान् सूरसेनांश्च विषयान् बुभुजे पुरा राजदानी ततसा भूत् सर्वया तव भूभुजां मधुरा भगवान् यत्र नित्यं सन्निहितो हरिः तस्यां तु कर्हि शिश्चौरेर्वसुदेवकृतोद्वगहा देवक्य प्रयाणे रतमारुह उग्रसेन सुतकं स स्व सुप्रियचीकीर्षया रश्मिन्हयानां जग्राह रौक्मै रथसते व्रतः चतुःशतं पारिबर्हं गजानां खेम मालीनाम् अश्वानामयुतं श्राद्धं रथानां च दासीनां सुकुमारीणां द्वे सते समलङ्कृते दुहित्रे देवगभृद्याने दुहित्रो वत्सलः शङ्कतुर्यमृधाङ्गश्च ने दुर्दुन्धो भयः समं वरवद्वो सुमङ्गलम् पदि भ्रग्रहीनं कंसं आभाष्याक असरीरवाक् अस्त्यास्त्वामष्टमो गर्भो हन्तायां बकसे भूता इत्युक्तः स कलः भो भोजानाङ्कुलपांसनः भगिनीं तं चोहुप्सितकर्माणं नृशंसं निरवत्रपं वसुधेवो महाभाकमुवाच परी सान्त्वयन् लघनीय गुणान् सूरैर्भवान् बोधय सस्करः सकतं भगिनीं हन्या स्त्रियमुद्वाहपर्वणिम् वीर वीरदेहेन सह जायते अद्य वा अब्दशदान्ते वा मृत्युर्वै प्राणिनां ध्रुवः देहे मापन्ने देही कर्मानुगो वसः देहान्तरम् अनुप्राप्य प्राक्तनं त्यजते वपुः रजन्स्तिष्ठन् भतैक केन यतैवकेन गच्छति यथा तृण झलुकैवं देही कर्मगतिं गतः दृष्टश्रुधाभ्यां मनसा नुचिन्तयन् प्रबद्येतत् किमपि ह्यभस्मृतिः यतो यतो धावति दैव चोदितं मनोविकारात्मकमापपञ्चसो गुणेशो माया रचिते शोदेह्य स प्रब्यमानः सहते न जायते ज्योतिर्यतयोदगपार्थिवेश्वतः ते समीरवेकानुगतं विभाव्यते एवं स्वमाया रचितेष्वसौ पुमान् गुणेषु राघानुगतो विमुख्यते तस्मान्न कस्यचिद्रोहमाचरेत् सततविदः आत्मनः क्षेमम् अन्विच्छन् द्रोग्धोर्वै परतो भयम् एषा तवानुजा बाला कृपणा पुत्र त्रिकोपमा हन्तुं नार्हसि कल्याणे इमां त्वं दीनवत्सलः त्रिशुक उवाच एवं स सामभिर्भेतै बोध्यमानोऽपि दारुणः नान्यवर्ततकौरव्यपुरुषताननुव्रतः निर्बन्तं तस्य तं ज्ञात्वा विचित्या न ग प्राप्तं कालं पृथिव्योढु तत्रान्वभत्यध मृत्युर्भुति मदा बोह्यो यावद्भुद्धि बलोदयं यत्यसौननिवर्तेत नापरादोऽस्ति देहि नः प्रदाय मृत्यवे न्मोचये कृपणामी मान् सुधा मे यति जयेरन्मृत्युर्वा न म्रियेत चेत् विपर्ययो वा किं न स्याद्गतिर्धातोर्दुरत्यया उपस्थितो पुनरापते अग्नेर्यधाधारोभिोगयोगयोः अतृष्टतोऽन्यनिमित्तमस्ति एवं हि शरीरसंयोगवियोगहेतुः एवम्बिमृश्यतं पापं यावतात्मनि दर्शनं पूजयामास वै सौरिर्बहुमानपुरःसरम् प्रसन्नवदाम्भोजो नृसं निरवत्र पम् मनसाधूयमानेन विगसञितमब्रवी वासुदेव उवाचा न ह्यस्यास्ते भयं सौम्ययद्वागकाशरीरिणी पुत्रान् स्वसुर्वधान्ये बव्रोते कंसधवाक्यः सारवेत् वासुदेवोऽपीतं प्रीतः प्रसस्य प्राविसद्गृहम् अत काल उपावृत्ते देवकी सर्वदेवता पुत्रान् प्रसशुवेशाष्टौ कन्याञ्चवानुवत्सरम् कीर्तिमन्तं प्रथमजकं सायनागदुन्दुभिः अर्पयामास कृष्रेण सोनृता दत्तदि वि पळह किं दुःसहं नु साधूनां किमकार्यं किम कधर्याणां तु त्यजन् किं ध्रुतात्मना दृष्ट्वा समत्वं तच्चौरे सत्ये चैव व्यवस्थितं कन्तुष्टम नाराजन् प्रगसङ्गिधमब्रवीत् प्रतियातु कुमोरोऽयं न ह्यस्मादस्ति मे भयम् अष्टमाद्युभयोर्गर्भात् मृत्युर्मे विहितः किल कतेति सुमा ययवानकधुन्दूबि नाप्यनन्दतत्त्वाक्यमसतो विजिदात्मनः नन्धात्याये व्रजगोपायाश्चामीषां च योषितः वासुदेवाद्या देवख्यात्या सर्वे वै देवाता प्राय उभयो रपिभारता ज्ञातयो बन्धुसुहृतयो ये च कंसं एतत् कंसाय भगवान् ससंस अभ्यत्य नारदः भूमेर्पारायमाणानां दैत्यानां च वधोद्यमम् ऋषिर्विनिर्घमे कंसो यधुन्मत्वा सुरानीति देवज्ञगर्भसम्भूतं विष्णुं च स्ववधं प्रति देवकीं वसुदेवं च निगृह्य निघटैर्गृहे जातं जातमहन्पुत्रं तयोरजनशङ्कया मातरं पीतरं भातॄन् सर्वांश्च सुहृदस्ततां नन्दिहयशुत्रूपो लुब्धाराजनप्राय सो भुमि आत्मानैमिकसञ्जातं जानन् प्राग्विष्णूनाहत महासूरं कालनेमिं यदुभिः स व्यरुध्यथा उग्रसेनं च पितरं यदु भोजगन्धकादीपं स्वयं निगृह्य बुभुजे सूरसेनां महाबलः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्ते पूर्वार्धे श्रीकृष्णावतारमुपक्रमे प्रथमोऽध्यायः सर्वत्र जीवनस्मरणं। गोविन्द गोविन्द सदगुरुनात्मा कर जी जय